श्रीमद्भागवत् महापुराणं दशं स्कन्ध अथ सप्तसप्ततितमोऽध्यायः साल्वोद्धार श्रीशोकुवाच स तु पस्पृश्य सलिलं दंशितो धृतकार्मुकः नैवां द्योमत पार्श्वं वीरस्येत्याहसारथिं विधुमन्तं ससैन्यानि दुमन्तं रुक्मिणीसुतः प्रतिहत्य प्रत्यविद्यन्नारा चैरष्टिभिस्मरन् चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनन् द्वाभ्यां धनुश्चकेतुं च सरेनाण्येन वैशिरः करसातकी साम् वाद्या जग्नु शोभपतेर्बलं पेतु समुद्रे सौभेया सर्वे सन्छिन्नकन्धरा एवं यदूनां साल्वानां निघ्नतां वितरेततं युद्धं तृणवरात्रं तद्भुत्तो मुलमूलमणम् इन्द्रप्रस्थं गत कृष्ण आहूतो धर्मसूनूनां राजसूयेतनुवृद्धे शिशुपाले च संस्थितये कुरु वृद्धा ननुज्ञाप्य मुनिश्च निमित्तान्यतिघोराली पश्यन् द्वारवतीं ययौ आह चाहमिहायात आर्यमिश्राभिसङ्गत राजन्यास्येद्यपक्षीया नूनं हण्यो पुरीं मम वीक्ष्य स्वानां निरूप्य पुरं पुनरक्षणं शोभं च सार्वराजं साल्वस्यान्तिकमाशु वै तेदकर्तव्यो मायावीशोभराडयम् इत्युक्तस्योदयामास रथमासाय दारुकः विशन्तं दद्रशो सर्वे हे परे चारुणानुजम् साल्वश्च कृष्णमालोक्य हतप्राय बलेश्वर प्राहरत्कृष्णसूताय शक्तिं भीम मापतन्तीं नभसि महूल्कामिवङ्घा भासयन्तीं दिशौरीशायकैः ससताच्छिनत तं च सोडसंधिर्विद्विध्वा बालैः शोभं च के भ्रमत अविद्यक्षरसन्दोहैकं सूर्ययुवरश्मी साल्वा शौरे सुतोर्सव्यं ससार्गं सार्गधन्वनः विभेदनपतद्धस्ता सार्गमासीतदद्भुतम् हाहाकारो महानासीद्भूतानां तत्र पश्यतां विनद्य शोभराडुजैरमहजनार्दनम् यत् त्वया मूढ न सङ्ख्योर्भ्रातुर्भार्यासितैक्षतां प्रमत्त सभा मध्ये त्वया व्यापादितसखा तं त्वाद्य अपराजितमानिनं नयाम्या पुनरावृत्तिं यदि तिष्ठे ममाग्रतः श्रीभगवानुवाच यथा त्वं कथ्यसे मन्दनपं पश्य स्यन्ति केन्दकं पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः इत्युक्त्वा भगवात्साल्यं गदया भीमवेगया तदाधिजत्रौ संरब्ध स च कम्पेवमन्